अथ चतुर्नवतितमः सर्गः दीर्घकालोषितस्तस्मिन् गिरौ गिरिवरप्रियः वैदेह्याः प्रियमाकाङ्क्षम् स्वम् विलोभयन् अथ दाशरथिश्चित्रम् चित्रकूटमदर्शयत् भार्यामरसङ्काशः शचीमिव पुरन्दरः न राज्यभ्रंशनम् भद्रेण सुहृद्भिर्विलाभवः मनोमे मे बाधते दृष्ट्वा रमणीयमिमङ्गिरिम् पश्ये ममचलं भद्रे नाणाद्विजगणायुतम् शिखरैःखमिवो द्विद्धैर्धातुमद्भिर्विभूषितम् केचिद्रजतसङ्काशाः केचित्क्षतजसन्निभाः पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः पुष्पार्ककेतकाभाश्च का केचिज्ज्योतीरसप्रभाः विराजन्ते चलेन्द्रस्य देशाधातुविभूषिताः नानामृगणैर्द्वीपितरक्ष्वृक्षगणैर्वृतः अदुष्टैर्भात्कयम् शैलो बहुपक्षिसमाकुलः आम्रजम्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः काश्मर्यारिष्टवरणैर्मधूकैस्तिलकैरपि मदर्यामलकैर्नीपैर्वेऽत्र धन्वनबीजकैः पुष्पवद्भिः फलोपेतैश्चायावद्भिर्मनोरमैः एवमादिभिराकीर्न श्रियम् पुष्यत्ययम् गिरिः शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणार् किन्नरान्द्वन्द्वशो भद्रे रममाणान् मनस्विनः शाखावसक्तान् खड्गांश शा प्रवराण्यम्बराणि च पश्य विद्याधरस्त्रीणाम् क्रीडोद्देशान्मनोरमान् जलप्रपातैरुद्भेदैर्निष्पन्दैश्च क्वचित् क्वचित् स्रवद्भिर्भात्कयम् शैलस्रवन्मद इव द्विपः गुहासमीरणो गन्धान्नापुष्पभवान् बहूर् घ्राणतर्पणमभ्येत्य कन्नरङ्गप्रहर्षयेत् यदीह शरदोऽनेकास्त्वया लक्ष्मणेन च वत्स्यामि न माम् शोकः रम्ये नानाद्विजगणायुते विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि अनेन मम प्राप्तम् फलद्वयम् पितुश्चानृण्यता धर्मे भरतस्य प्रियम् तथा वैदेहिरमसे कच्चिच्चित्रकूटे मया सह पश्यन्ती विविधान् भावान् मनोवाक्याय सम्मतान् इदमेवमृतम् प्राहुराज्ञिराजऋषयः परे वनवासम्भवार्थाय प्रेत्य मे प्रपितामहाः शिलाशैलस्य शोभन्ते विशाला शतशोभितः बहुळ बहुळैर्वर्णैर्नीलपीतसितारुणैः निशिभान्त्यचलेन्द्रस्य हुताशमशिखा इव ओषध्यः स्वप्रभालक्ष्म्या भ्राजमानाः सहस्रशः केचित्क्षयनिभादेशाः केचिदुद्यानसन्निभाः केचिदेकशिलाभान्ति पर्वतस्यास्य भामिनी भित्त्वैव वसुधा भाति चित्रकूटः समुत्थितः चित्रकूटस्य कूटोऽयम् दृश्यते सर्वतः शुभः कुष्ठस्थगरपुन्नागपूर्जपत्रोत्तरच्छदान् कामिनाम् स्वास्तरान् पश्य कुशेशयदलायुतान् मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः कामिभिर्वनिते पश्य फलानि विविधानि च वस्वौ कसाराम् नलिनीमतीत्यैवोत्तरान् कुरून् पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः इमम् तु रतिम् प्रपत्स्ये कुलधर्मवर्धिनीम् सताम् पथिस्वैर्नियमैः परैः इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्नवतितमः